अथर्वेदे अष्टमाष्टके द्वितीयोऽध्यायः ओ ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यममृतत्ममा नश तेभ्यो अभद्रमङ्गिरसोमो अस्तु प्रतिबृह्णीतमानवम् सुमेधसः य उदायन् पितरो अगोमयम् वः स्मृतेनाभिन्दन्परिवत्सरे बलम् दीर्घायुत्वमङ्गिरसो वो अष्टु प्रतिगृह्णीतमानवंसुमेधसः यहृतेन सूर्यमारोऽहयम् निव्यप्रतयम् पृथिवीम् मातरम्बी सुप्रदास्त्वमङ्गिरसो वो अस्तु प्रतिगृह्णीतमानवंसु मेधसः अयन्नाभावदति वल्गुवो गृहे देव सुब्रह्मण्यमङ्गिरसो वो अस्तु प्रतिगृह्णीतमानवम् सुमेधसः विरो ओपास इदृशयस्त इद्गम् भीरवेपसः ते अङ्गिरसः सूनभस्ते अग्नेः परिजज्ञिरे ये अग्नेः परिजज्ञिरे विरो ओपासो दिवः परि नवग्भोनुदशग्भो अङ्गिरस्तभःस चाः देवेषु मंहते इन्द्रेण लिलानिसृजन्तपाघतो व्रजङ्गोमन्दमश्विनम् सहस्रम् मेदतो अष्टकर्ण्या अश्रवो देवेश्वक्रत प्रणोनञ्जा आयता भयम् अधुस्तोऽग्मे एवरोहतु यः सहस्रम् शताश्वम् सद्योदानायमम् हते न तमश्नोति कश्चलदिव इवसान्वारभम् सावर्ण्यस्य दक्षिणापि सिन्धुरिवपप्रथे उतदासा परिविशे स्मद्दिष्टीकोपरेण सा यदुस्थुर्वश्च मामरे सहस्रदाग्रा मणीर्मारिषण्मनुः सूर्ये एणास्य यतमानैतु दक्षिणा सावर्णेर्देवाः प्रतिरन्ता युर्यस्मिन्नश्रान्तासनामवाजम् परावरो ये तिधिषन्दहाप्यम् मनुप्रीता सोजनिवा विवस्वतः ययाते येन वश्यस्य देवा आसते ते, ते अधिब्रुवन्तु नः विश्वाहि वो ओनमस्या आनिवन्द्या नामा आनिदेवा उत यज्ञिया आनिवः ये स्थजाता अधितेरद्भ्यः स्पर्ये पृथिव्यास्ते म येभ्यो ओ माता मृधुमत्पिन्नते पयः पीयू सन्ध्यौरजतिरद्रिपरहाः उक्थसुष्मान् वृषपरान् स्वप्रशस्ताम् आ आदित्याम् अनुमरा स्वस्तये वृजक्षसो अनिमिषन्तो अर्हणा बृहद्देवासो अमृतमानशुः ज्योतिरथा अहिमाया अनागसो दिवो वर्ष्माणम् वसते स्वस्तये ए सम्राजो ये सुहृधो ओ यज्ञमा यजुरपरिहृदादधिरेदिविक्षयम् ताम् आविवास नमसा सुभक्तिहर् महो आ आदित्याम् अरिधिम् स्वस्तदे को वः स्तोमम् राधति यञ्जुजो ओषधविश्वे एदेवासो मनुषो यतिष्ठन को वो अध्वरन्तु विजाता अरङ्करद्यो नः पर्षदत्यम् येभ्यो होत्रा अम् प्रथमामा आ ये ये मनुःसमिद्धाग्निर्मनसा सप्त होतृभिः त आ आदित्या सुगानः कर्तसुपथा आस्वस्तये य एषि रे भुवनस्य प्रदे एतसो विश्वस्य स्थातुर्जगतश्च मन्तवः भरेष्मिन्द्रम् सुहवम् हवामहेम् वोमुचम् सुकृतम् देभ्यञ्जनम् अग्निम् मित्रम् वरुणम् सातजे भगन् द्यावापृथिवी मरुतः स्वस्तजे सुत्रामा आणम् पृथिवेन्द्यामनेहसम् सुशर्मा आणमदितिम् सुप्रणीतिम् दैवी नावम् स्वरित्रामनागसमस्रवन् देवारुहे मा स्वरित्रा स्वस्तजे विश्वे ए यत्रा अधिवोचतोतयेत्रायध्वन्नो दुरेवाहाया अभिकृताः सत्यया आवो देवहोत्याहुवेम शृण्वतो देवा अवसे स्वस्तये अपामीवामपविश्वामनाहुदिमपाराः दिन्दुर्भिरत्रामघायतः आरेदे एवाद्वेषो अस्मद्युजोतरोरुणः शर्म यच्छता स्वस्तये प्रातर्यावाणम् रथमिन्दसा नसि मरिष्यन्त मारुहेमा स्वस्पजे स्वस्ति नः पथ्या सानो अमासो अरणे निपा आतु स्वावेशा भवतु देवगोपा एवाप्रतेः सो नरवेवृधद्वो विश्व अधिते अदिते मनीषे ईशानासो नरो अमर्थेनास्ता आविजनो अव्यो गये देवाना देवानाङ्कतमस्य जामनिषुमन्तु नाम शंवताम् मनामहे को मृणादिकतमो नोमयस्करत्कतमऊती अभ्यापवर्तते क्रतोयन्ति क्रतवो हृत्सुधीतयो वेन वेनाः पतयन्त्यादिशाः न विद्यते अन्यदे एभ्यो देवेषु मे अधिकामा अयम् सदा नरा आपाशंसम्भूषणमगो ओह्यमग्निम् देवेद्धमभ्यर्थसे गिरा सूर्यामासा आचन्द्रमसा यमन् निवित्रितम् वातमुषसमक्तुमश्विना कथाकविस्तु वीरवाङ्कया आ गिरा बृहस्पतिर्वाबृहते सुवृत्तिभिः अज एकवात्सु हवे एभिरलक्वभिरहि शृणोतु बृध्यो ओहवे ए ओ ओ ओ ओ ओ मने दक्षस्य वादिते जन्मनिमुनते राजानामित्रावरुणाविवाससि अतो ओर्तबन्धाः पुरुरथोऽर्यमासप्तहो ताविषुरूपेषु जन्मसु तेनो अर्वन्दो हवनश्रुतोऽहवम् विश्वे शृण्वन्द्वाचिनोऽमितद्रवः सहस्रसा मेधसा आता विभत्मना महोयेधनम् समिथेषु जभ्रिले प्रवो ओवायुम् रथलिलम् पुरन् त्रिं सोमये सख्याय भूषणम् ते हि देवस्य समितुः सवेमक्रतुम् सजन्ते सतितः स चेतसः त्रिः सप्तसहस्रानद्यो महीरपो वनस्पतीन्पर्वताम् अग्निमूतये कृशानुमस्त्रिश्यम् सधस्थ रुद्रम् रुद्रेषु रुद्रियम् हवामहे सरस्वती सरजुःसिन्धुरोर्मिभिर्महो महीरवसायन्तु वक्षणीः देवे रामो अमातरः सूत इत्मो अकृतवत्पजो मधुमन्नो अर्चत उत माता बृहद्दिवाशृणो नस्त्वष्टाः देवेभिर्जनिभिक्तापचाः रुभक्षा वाजोरथस्त्वतिर्भगो ऽरण्डः शंसः शशमानस्य पातुनः रण्डः सन्द्रष्टोऽपि तुमाङ्गिमक्षजो अभद्रारुद्राणाम् मरुतामुपस्तुतिः गोभिः श्यामयशसो जनेश्वासदा आदेवास इडया स चेमहि याम्येतिजम् मरुत इन्द्रदेवा अददातवरुणमित्रयूजम् ताम्बे एपयतपयसेवधेनुम् कुविद्गिरोऽिरथेवहाथ कुविदङ्गप्रति यथा आचिरस्य नः स जात्यस्य मरुतो बुवोचथ नाभायत्र प्रथमम् सन्नसा आमहेतप्रजाभित्मतिर्दधातु ते हि द्यावा आपृथिवी मातरा आ मही देवी देवाञ्जन्मना यज्ञे ए इतः उभे विभृत उभयम्भरे एमभिः पुरोरेता अंसिपितृभिश्च सिञ्चतः विशाहोत्रा विश्वमश्नोतिवार्यम् बृहस्पतिरमतिपनीयसे ग्रावायत्रमधुषुच्यते बृहदवे एव ये वा कविस्तु वीरवा अङ्गतज्ञा द्रविणस्युर्द्रविणसश्च कालः उक्थेभिरत्र मतिभिश्च विप्रोपीपयद्रयो अदिव्या निजन्ना एवाप्रदेस्सो दुरबीवृधद्भो विश्व आदित्या अदिते मनीषी ईशानासो नरो अमर्थेनास्ता आविजनो अदिव्योगयेन अग्निरिन्द्रो वरुणो मित्रो अर्यमावायुः पूषा सरस्वती सजोषसः आदित्या विष्णुर्मरुतः सर्ब्रसत्सोमो रुद्रो अदितिर्ब्रह्मणस्पतेः इन्द्राग्नेर्वृत्रहत्येष् सप्तमिषोरिन्दानादन्वा आसमोकसा अन्तरिखम् मह्यापप्ररोजसा सोमोऽघृतश्रेर्महिमानवीरयन् तेषाम् हिमह्नामहतामलर्वणाम् सोमाङ्ग्यर्णमृजरज्ञा रतावृथा ये अप्सववर्णवञ्चित्रराधसस्ते नो ओरासन्दाम् महजे सुमित्र्याः स्वर्णरमन्तरिक्षाणिलोचनाद्या वा भूमे पृथिवीं स्कम् बुरोजसा प्रवृक्षा इव महायन्दस्सुरातयोः देवास्तवन्दे मनुषाय सूरयाः मित्राय शिक्षवरुणाय दाशुशेया सम्राजानमसानप्रयुच्छतः यजोर्धामधर्मणा रोचते बृहद्ययोरुभे रोदसेनादसेवतौ या गौर्वर्तनिम् भर्येति निष्कृतम् भयो दुहा आनावृतनीरभारताः सा प्रब्रुवाणा वरुणाय दाशुषे देवेभ्यो दाशद्धविषाः विवस्पते दिवक्षसो अग्निक्वालतावृधस्य योनिम् विभृशन्त आसते यां सभित्या अपराचक्ररो मृजुः परीक्षिताः पितराः पूर्वजापरे तस्य यो नाक्षयतः समो रसा द्यावा आ पृथिवी वरुणाजसंव्रते घृतमत्पयो महिषाय पिन्वतः पर्जन्यावाता आवृषभापुरीषिणे एन्द्रवायो वरुणो मित्रो अरु यमा देवाम् आदित्याम् अतिनिंह वा महेजे पार्थिवासो दिव्यासो अप्सुवे वष्टा आरम्बाजमृहभोज ओहते दैव्या आरा उषसं स्वस्तये बृहस्पतिम् रत्रघातम् सुमेधसमिन्द्रियम् सो सोमम् धनसा उमहे ब्रह्म कामश्वम् जनयन्त ओषधेर्परस्परे इन्द्रिलेम् पर्वता अपह सूर्यन् दिविरोहयन्तः सुदानवहार्याः व्रता विसृजन्तो अधिक्षमे भज्यमम् असप्पृथो निरश्विनाश्यावम् पुत्रम् अमद्युवम् विमरायोहथुर्युवम् यश्नापा विश्वकायावसृजथः कामे एरवेतन्यतुरेकपादजो का दिवो धत्ता सिन्धुरापः समुद्र्याः विश्वे एदेवासशृणवन्वचांसि मे सरस्वती सहसेभिः पुरन्ध्या विश्वे ए देवाः सह सेभिः पुरन्ध्या मनोर्यजत्रा अमृता आरुतज्ञाः तिशाचो ऽभिषाचस्वर्मिदस्वा अर्किरो ब्रह्म सूक्तञ्जुषेरत देवान्वसिष्ठो अमृतान्ववन्देये विश्वाभुवनाभिप्रतस्थो तेनोरासन्तामुरुगाजमद्यजूयम्पादस्वस्तिभिः सदा नः देवान्भुवे बृहच्छ्रवसः स्वस्तये येज्यो तिष्कृतो अफलस्य प्रचेतसः देवा आवृधुः प्रतरम् विश्ववे एतस इन्द्रज्येष्ठासो अमृता आदृतावृथाः इन्द्रप्रसूता वरुणप्रशिष्टा ये सूर्यस्य ज्योतिषो भागमानशुः मरुद्गणे भृजने मन्मधेमहिमागो ने यज्ञञ्जनयन्तसूरयाः इन्द्रो वसुभिः परिपातु नो रुद्रो रुद्रेभिर्देवो मृळयादि नः स्पृष्टा आ नोग्नाभिः सुविताय जिन्वतु अतिर्त्या वा आपृथिवीरुतम् मादिन्द्राविष्णो मरुतः सर्बृहत् देवाङ् आदित्याम् अवसेह वामहेमसून् रुद्रान् सवितारम् सुदम् ससम् सरस्वान्धेभिर्वरुणोऽधुरौ हृदः ब्रह्मकृतो अमृता आविष्टवे एतदः शर्मणोऽयं सन्ति त्रिवरोऽधमम्हसः वृषा आयज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो विश्रुताः वृषणाद्यावा आपृथिवे दृतापरे वृषाः प्रिषा आपद्यन्यो वृषणो वृषस्तुभाः अग्नेशोमाविषणापायसातये पुरुप्रशस्ता वृषणा उपब्रुवे या भे ये जिलेभो देव यज्ञजातारः शन्मत्रिवरोऽसं धृतव्रताः क्षत्रिया यज्ञनिष्कृतो बृहद्दिव अध्वराणामभिश्रियाः अग्निः ओदाररसापो अद्रुहोपोऽसृजन्नलवृत्रतोर्ये ्यावापृथिवे जनयन्नभिव्रताप ओषधेर्वनिना यज्ञा अन्तरिक्षम् पापप्ररोतदेवसम् देवासस्तन्वि एनिमामृजुः धर्तारो दिवर्भवः सुहस्ता आवातापध्वन्यामहिषस्य तन्यतोः आप ओषधेर्प्रतिरन्तु नो गिलोभगो रातिर्वाजिनो मेहवम् समुद्रः सिन्धूरजो अन्तरिक्षमज एकवात्तमयित्थुरर्णवः अहिर्बुद्ध्यशृणवद्गता हंसि सिमे विश्वे ए देवास उत सूरजो ममा श्याम वो मनवो देववेदले प्राञ्जन्नो यज्ञम् प्रणयतसाध्वरा आदित्यारुद्रावसवत्सुदा आनव इमा होता आरा प्रथमा पुरोहितऋतस्य पन्थामन्वे धुया क्षेत्रस्य पतिम् प्रतिवेशमीमहे विश्वान् देवाङ्गप्रयुच्छतः वसिष्ठा सप्तृवद्दाचमकृतदेवाम् क्रीडा आनारिषिवत्सस्तदे प्रीता इव ज्ञातयः काममेत्या स्मे दे ए वासो वधूरुतापसो देवान्वसिष्ठो अमृतान्ववन्दे ये विश्वा भुवनाभिप्रतस्थो तेनो रासन्दामुरुगाजमद्ययोयम् वा आतस्वस्तिभिः सदानः इमान् भियम् सप्तशेषणेम् वितानहृतप्रजातामृहरे मविन्दर तुलीयम् स्विज्जनयद्विश्वजम् योजास्य उक्थमिन्द्रा आयशंसन् ऋतम् शंसन्तऋजुदीध्या आरादिवः पुत्रासो असुरस्य वीराः विप्रम् पदमङ्गिरसोदधा आरायज्ञस्य धामप्रथमम् हनन्द हंसैरिवसखिभिर्वापदद्भिरश्मन्मया यः नाभ्यस्य बृहस्पतिरभिकनिकृद्गा उत प्रास्तौदुच्छ विद्वाङ्गगायत अवो द्वाभ्याम् पर एकयागागुहातिष्ठन् तेरस्य सेदौ बृहस्पतिस्तवसि ज्योतिरिच्छन् दुस्राकर्विः तिस्रावाह विभिद्यापुरम् शयथेमपा जेन्निस्त्रीणि साकमुदथेरकत् बृहस्पतिरुषसंसोर्यङ्गामर्कम् विभेदस्तरयन्निपद्योः इन्द्रो रक्षिता रन्दुकानाम् करेणे एव स्वेदा अञ्जिभिराशिनमिच्छ मानोरोदय प्रयागा अमुष्णात् स एयम् सत्येभिः सखिभिः श्वचद्भिर्गोधाय संविधनसैरदर्दः ब्रह्मणस्पतिर्षभिर्भराहे घर्मस्वे एजेभिर्द्रविणम्यानट ते सत्ये न मनसा गोपलिङ्गा इयानास इषणयन्तः बृहस्पतिर्मिथो अपद्यपे भिरुदुःश्रियाः असृजतस्वयुग्भिः संवर्धयन्तो मतिभिः शिवाभिः सिंहयुवनानदतम् सदस्थे बृहस्पतिम् वृषणम् शूरसाधौ परे एवमदेमजिष्णुम् यदा वाचमस नद्विश्वरोपवाद्यावरुक्षदुत्तराणि सद् बृहस्पतिम् मृषणम् वर्धयन्तो नानासन्तो विभ्रतो ज्योतिरासा सत्यामाशिषम् कृणुताव ज्योतिध्यवधस्वे विदेवैः पश्चामृधो अवभवन्तो विश्वास्तद्रो ओदशे शृणुतम् विश्वमिन्द्रे इन्द्रो अमह्नामहतो अर्णवस्य विभोर्धानमभिनदद्बुदस्य अहं न हि वरिणात्सप्तसिन्धोऽ देवैर्द्याः वा पृथिवी प्रावदन्नः उदप्लुतो नवयोरक्षमाणा वावदतो अभ्रियस्येव घोषाः गीर्भ्रजो नोर्मयोजोरदन्तो बृहस्पतिमभ्या अर्कामन्नोभिराङ्गिरसोऽनक्षमाणो भव इमे दर्शमणम् निनाय जने एमित्रोरदम्पते अनक्ति बृहस्पते वाजयाशोऽङ्वाजौ साध्वर्या अतिथिनेरिषिरास्पारः सुवर्णाः अनवद्यरूपाः बृहस्पतिः पर्वतेभ्यो वितोर्या निर्गा ओपेयवमिव स्थिविभ्याः आपृषा जन्मधुनरुतस्य योनिमवक्षिपन् नर्क उल्कानिपद्योः बृहस्पतिरुद्धरन्नश्मनोगा भूम्याः उद्देववित्पदम् विभेद अपज्योतिषातनोः अन्तरिक्षादुद्रीपा आलमिपपात आजत् बृहस्पतिरनुमृश्या आबलस्याभ्रमिपपात आचक्र आगाः यदाबलस्य पीयतो जशुम्भेद्बृहस्पतिरग्तपो अभिरक्कैः तद्धिर्न जिह्वापरिविष्टमानतार्निधेन्द्रकृणो दुःश्रियाणाम् बृहस्पतिरमध्यदासान्नामस्तरीणाम् सदने गुहाय आण्डेवभित्त्वा पुनश्चगद्भव दुःश्रियाः पर्वतस्यत्मनाय अश्नापि नद्धम् मधुपर्यवश्यन्मस्यन्नदीनमुदनि क्षियन्तम् सोषामविन्द स्वा अस्सो अग्निन्दो अर्केणपिबाधेतमांसि बृहस्पतिर्गोपपुषो बलशिलनिर्मजानन्दणो जभारिमेव अभिश्यापन्नकृशनेऽभिरन्नक्षत्रेऽभिः पितरोद्यामपिंशन्न रात्र्यान्तमो अदधुर्ज्योतिरहन् बृहस्पतिर्भिनदध्रिम् विदद्गाः इयमकम् मनमो अभ्रियाजयः पूर्वैरन्वानो न वेति बृहस्पतिः स हि गोभिः सो अश्वैः स अद्रा अग्नेर्वध्यश्वस्य सन्दृशो भामे प्रणेति सुरणा उपवेतयः यदि सुमित्राविशो अग्र इन्धते घृतेनाहुतो जरते च विद्युद घृतमग्नेर्वध्यश्वस्य वर्धनम् घृतमन्नम् घृतम् नस्य मेदनम् घृतेनाहुत उर्व्यापिव प्रथे सूर्य इव रोचते सर्पिरा आसुतिः यत्ते मधुर्यतने एकम् सुमित्रः समेते अग्नेतदिदन्न स नेवच्छोदस गिरो जुषस्व सवादम् रषि स इह श्रवो धाः यन्त्वा पूर्वमेलितो वध्यश्वः समेधे अग्ने अस्मे भवाद्युम्निवाद्योत गोपामा शूर इव धृष्णुश्च वन सुमित्रः प्रणवोऽचम्बाद्यश्वस्य नाम समज्र्या पर्वत्या आवसो निदासाः वृत्राण्यार्या जिगेथ शूर इव धृष्णुश्च वनो जनाः नान्नमग्नेर्वृतनायो रमिष्याः दीर्घदम् दुर्बृहदुःखायमग्निः सहस्रस्तरे शतने सरुग्भाः ुमान् युमत्सुर्भिर् मृद्यमानस्सु मित्रेषु वेदयो दे भयत्सु त्वेधेनुः सुदुघा आजातवेदो सच्यते एव समनासपर्धुक तन्द्रभिर्दक्षिणावद्भिरग्ने सु मित्रेऽभिरिध्यसे देभयद्भिः देवाश्चित्ते महिमानं जातवेदो महिमानम् वाद्य प्रवोचन् यत्संरच्छन् मानुषेर्विधायम् तन्दयस्तादृभिः विदेव पुत्रमभिपुपस्थेत्वामग्ने वध्यश्वः स पर्यन्न षाणो अस्य समिरञ्जोतपूर्वा अङ्गमनोर्प्राथतश्चित् शश्वदग्निर्वध्यश्वस्य शत्रोनुरभिर्तिकायस्तसो मद्भिः समलञ्चितहश्चित्रभानो बहुराधम्श्चिद अयमग्निर्वस्य मृत्रहासनगाप्रेध्यो नमसोपवाक्याः स नो अजामीमृत वा विजामिष्ठशब्धगोराध्यश्व इमाम् मे ए अग्ने समिध्युषस्वेडस्पदे प्रतिहर्या कृताजे वर्ष्मन् पृथिव्याः सुदिनत्वे अह्ना आवोर्ध्वो भवशुक्रगोदेव यज्ञ्या आ देवाना आमग्रया विहया आतुनराशंसो अविश्वमे विरश्मैः अदेवेभ्यो अदेवतमः शश्वतमेवत्याो मनुष्यासो अग्निम् बहिष्ठैरश्वैः सुता देवान् देवान्वक्षि निश देहहोता विप्रसतान् देवजुष्टम् दिरस्ता दीर्घम् राघ्मातुरभिभोत्पस्मे अहेतामनसा देवपरिहिरिन्द्रज्येष्ठाम् पुशतो यक्षिदेवान् निपोभासानुस्पृशता पृथिव्या वामात्रजाविश्रयध्वम् क्षतेर्वारो महिना महद्भिर्देवम् रथम् रथयुर्धारयद्धम् देवे दिवो दुहितरा सु शिल्पे उषासानक्तासु तान्योनौ आवाहन् देवास उषते पुषन्त पुरौसे रन्दुसुभगे उपस्थेः ऊर्ध्वोऽग्रावा बृहदग्निः समिद्धः प्रिया धामान्ययुतेरुपस्थेः पुरोहितावृत्विजा यज्ञे अस्मिन् विदुष्टराद्रविणमाजतेधा तिस्रो देवेरबर्हिरिलम्बरे यासे एतद्रमावत्स्योनम् मनुष्पद्यज्ञम् सुहिता हवेम् शीडा देवे कृतपदेजुषन्दा देवत्पष्टर्यद्धजानुत्तमानद्यतङ्गिरसामभवः स चाभोः स देवानाम् पाधौ पप्रविद्वानुषन्यक्षिद्रविडोदस्वरत्नाः वनस्पतेरशनया आयोनाम् पाठ उपवक्ष्यविद्वान् सदादिदेवः कृणबद्धवेंश्यवतान् जावा पृथिवे हवम् मे आग्ने एव हवरुणविष्टये न इन्द्रम् दिवो मरुतो अन्तरिक्षात् सीदन्तु बर्हिर्विश्वायजत्रा स्वाहा देवा अमृताः मादयन्ताम् बृहस्पते प्रथमम् वाचो अग्रम् यत्प्रैरतनामते चन्द्रम् श्रेष्ठञ्यप्रमासे यत्प्रेणातदे एषाम् निहितम् गुहाभिः सक्तुमिवतितमुना पुनन्तो यत्रथे रामनसा वा अत्रा अत्रासखायः सख्यानि जानते भद्रैषाल्लक्ष्मीर्निहिताधिवाचै यज्ञेन वाचः पदवेयमायन्तामन्दमिन्दन् द्विषु प्रविष्टाम् तामाभृत्याभ्यदधुः पुरुत्रादाम् सप्तरेफा अभिसन्नवन्ते उतत्पः पश्यन्नदर्शवाचमुतत्पशः शृण्वन्न शृणोत्येना उतोत्तस्मै दन्दा अम्बिशस्रे जायेपत्य उशती अधे एन्द्राचरतिमायैशवाचम् शुश्रुवाम् अफलाभपुष्पाम् यस्तित्याज स जीवितम् सखा आयन्नतस्य वाच्यविभागो अस्ति यदीम् शृणोत्यलकम् शृणोति न हि प्रवेदसुहृतस्य ग्रन्था अर्क्षण्वन्तः कर्णवन्तः सखा आयो मनो जगेश्वरसमा बभूवुः आदर्भ्रास उपकर्क्षास उत्प्रवे इ भस्नात्वा सुमनसो हृदा दष्टेषु मनसो जलेषु यद्ब्राहम् हणाः संयतन्ते सखायः अत्राहत्वम् विदहुर्वेद्याभियोः ब्रह्माणो यदसंयुक्ते इमे येनार्वाङ्मनश्चलन्दिरब्राहम् हणासो नसुते कलासः त एतेवाचमभिपद्यपापया आशिरेस्तत्रम् तन्वते अप्रजग्वयः सर्वे नन्दन्ति यशसा गतेन सभासाहेन सख्या सखायः किल्विषस्तर्तिरुष्ये शामरम् हितो भवति गादिनाय रचान्तः पोषमास्ते पुष्पाङ्गायत्रो गायति षक्परेषु ब्रह्मात्मोपदति जातविद्याञ्यज्ञस्य मात्रामितरुत्वः इति अष्टमाष्टकेऽद्वितीयोऽध्यायः